श्री गणेशाय नमः श्रीगौरी शङ्कराभ्यां नमः अथ श्री शिवमहापुराणे विद्येश्वरसंहितायाम् द्वादशोऽध्यायः शिवक्षेत्रवर्णनम् श्रोवाच श्रुद्धम् ऋषय्यप्राज्ञा शिवक्षेत्रम् विमुक्तिदम् तदागमान् ततो वक्षे लोकरक्षार्थमेव हि पञ्चाशत् कोटि विस्तीर्णालवनकानना शिवाज्ञा हि पृथिवी लोकं धृता च तिष्ठति तत्र तत्र शिवक्षेत्रं तत्र तत्र निवासिनां मोक्षार्थं कृपया देव क्षेत्रं कल्पितवान् प्रभु परिग्रहदृषीणां च देवानाञ्च परिग्रहात् स्वयम्भूतान्यथान्यानि लोकरक्षार्थमेव हि तीर्थे क्षेत्रे सदाकार्यम् स्नानदानजपादिकम् अन्यथा रोगदारिद्र्यम् ओकत्व मोकत्वा ध्याप्तु वा नरः अथास्मिन् भारते वर्षे प्राप्नोति मरणम् नरः स्वयम्भूस्थानवासेन पुनर्मानुष्यमाप्नुयात् क्षेत्रे पापस्य करणम् दृढम् भवति भूसुरः पुण्यक्षेत्रे हि पापमण्वपि नाचरेत् ना येन केनापि पुण्यक्षेत्रे एव सिन्धोचत नदीतीरे सन्ति क्षेत्राण्यनेकश्च सरस्वती नदी पुण्या प्रोक्ता षष्टिमुखा तथा तत्तत्तीरे क्षेत्राण्य क्रमाद् ब्रह्म पदं लभेत् हिमवैद्गिरिजा गङ्गा पुण्या शत मुखा नदी तत्तीरे चैव काशादी पुण्यक्षेत्राण्यनेकश्च तत्र तीरं प्रशस्तम् हि मृगे भृग बृहत्पतौ शोणभद्रो दशमुख पुण्योभिश्च फलप्रदः तत्र स्नानोपवासेन पदं वैनायकं लभेत् चतुर्विंशमुखा पुण्या नर्मदा च महनदी। तस्यां स्नानेन वासेन पदं वैष्णवमाप्नुयात् तमसा द्वादशमुखा रेवादशमुखा नदी गोदावरी महापुण्या ब्रह्म गोवधनाशिनी एकाविंशमुखा प्रोक्ता रुद्रलोकप्रदायिनी कृष्णवेणी पुण्यनदी सर्वपापक्षया वः साष्टादशमुखा विष्णुलोकप्रदायिनी ब्रह्म ब्रह्मलोकप्रदायिनी सुवर्णमुखरि पुण्या प्रोक्ता नवमुखा तथा तत्रैव सुप्रयायन्ते ब्रह्मलोकच्युतास्तथा सरस्वती च पम्पा च कन्या श्वेतनदी शुभा एतासान्तिर्वासेन इन्द्रलोकम् अवाप्नुयात् सह्याद्रिया महापुण्या कावेरीति महानदी सप्तविंश मुखा प्रोक्ता सर्वाभीष्टप्रदायिनी तत्तीरा स्वर्गदाश्चैव ब्रह्मविष्णु पदप्रदा शिवलोकप्रदा सैव तथाभीष्ट फलप्रदा नैमिषे ेषगे च गुरोरवौ ब्रह्म लोकप्रदं विद्यात् तथा पूजादिकं तथा सिन्धुनद्यां तथा स्नानं सिंहे कर्कटगैरवौ केदारोदकपानं च स्नानं च ज्ञानदं विदुः गोदावर्यां सिंहमासे स्नापयत् सिंह शिवलोके प्रथमिति शिवे तथा तथा पुरा यमुनाशोणयोस्नायत् गुरो कन्यागते रवौ धर्मलोके दन्ति महाभोग महाभोगप्रदं विदुः कावेर्यां तुलागे तु रव गुरौ विष्णोर्वचनमाहात्म्यात् सर्वाभीष्ट प्रदं वृश्चिके मासि सम्प्राप्ते तथार्थे गुरुवृश्चिके नर्मदायां नदीस्नानात् विष्णुलोकमवाप्नुयात् सुवर्णमुखरीस्नानां चापगे च गुरो रघो शिवलोकप्रथमिति ब्राह्मणो वचनं यथा मृगमासीत् तथा स्नायत् जाह्नव्याम् मृगगे गुरौ शिवलोकप्रदमिति ब्रह्मणो वचनं यथा ब्रह्मविष्णुवौ पदे भुक्त्वा तदन्ते ज्ञानमाप्नुयात् गङ्गायां वा सह्यजां वापि समाश्रित्येव सेद्बुध तत्काले कृतपापस्य क्षयो भवति निश्चितं रुद्रलोकप्रधान्येव सन्ति क्षेत्राण्यनेकशहे ताम्रपर्णे वेगवती ब्रह्मलोक फलप्रदे तयोस्तीरे हि सन्त्येव क्षेत्राणि सर्गदानि च सन्ति क्षेत्राणि तन्मध्ये पुण्यदाने च भूरिशहे तत्र तत्रैव सन्तराज्ञ तादृशं च फलं लभेत् सदाचारेण सद्वृत्या सदाभावेन यापि च वसे दयालु प्राज्ञो वै नान्यथा तत् फलं लभेत् पुण्यक्षेत्रे कृतं पुण्यं बहुधा रुद्धिम् ऋच्छति पुण्यक्षेत्रे कृतं पापम् जायते तत्कालं जीवनाथश्चेत् पुण्येन क्षमये यमेष्यति पुण्यमैश्वर्येण प्राहु कायिकं वाचकं तथा मानसं च तथा पापं तादृशं नाशये द्विजः वज्रलेपम् वज्रलेपं तु कल्पकल्पानुगं तथा ध्यानादेवैतन्न चेत् नान्यथा नाशं ऋच्छति वाचकं जपजालेन कायिक कायिकं कायशोषणात् दानार्धन कृतं नश्चेत् नान्यथा कल्पकोटिभिः क्वचित् पापेन पुण्यं च वृद्धिः पूर्वेण नश्यति वृद्धिं च भोगांश पुण्यपापयो ज्ञाननाशो हि बीजांशो वृद्धिरुक्त प्रकारतः भोगांशु भोगनाश्यस्तु नान्यथा पुण्यकोटिभिः बीजप्ररोहो नष्टे तु भोगाय कल्पते देवानां पूजया चैव ब्रह्मण्डानां च दानत तपोधिक्या च कालेन भोर्ग स यो भवेन्दृणां तस्मात् पापं वक्तव्यम् सुखमेच्छथ इति श्री शिवमापुराणे प्रथमायाम् विद्येश्वरसंहितायाम् शिवक्षेत्रवर्णनम् नाम द्वादशोऽध्याय